अथर्वेदे तृतीयाष्टके प्रथमोऽध्यायः ॐ प्रय आरुष्यति पृष्ठस्य दासे रामातरा विविशुः सप्तवाणीः परीक्षिताः पितरा सञ्चरे प्रसरस्राते दीर्घमायुः प्रयक्षे दिवक्षसो धेनवो वृष्णो अश्वाः देवीरातस्थौ मधुमद्वहन्तेः ऋतस्य त्वासदशिक्षे मयम् तम् पर्येकाचरति वर्तलिङ्गौः आसे एमरोहत्सुयमाभवन् देहपदिश्चिकित्तान्द्रजिविद्रजीणाम् प्रनीरपृष्ठो अतशस्य धासे स्ता अवासयत्पुरुधप्रतीकः महित्वाष्ट्रमूर्जयम् वीरदुर्यम् स भूयमानम् वहतो वहन्ते व्यङ्गेभिर्दिद्युतानः स्वतस्थ एका विपरोदसी आविवेश जानन्ति कृष्णो अरुषस्य शेवमुतब्रद्धस्य शासनेरणन्ति दिवोरुचस्वरुचो रोचमाना इ राजेषाङ्गण्यामाहि रागीः उतो पितृभ्याम् प्रविदानुघोषम् महो महद्भ्याः मनयन्तशोषम् मुक्षा हयत्र परिधानभक्तोरनुस्वन्धामजतुर्ववक्षा पञ्चभिः सप्तविप्राः प्रियम् रक्षन्ते निहितम् पदम् प्राञ्चो मदन्त्युक्षणोः अजुर्या देवा देवा राममोहिं व्रता गुः हो दैव्या होताहारा प्रथमान्यरञ्जय सप्त प्रक्षासस्वधजाः मदन्ति ऋतम् शंसन्तऋतमित्त आहुरनुतम् रतपादीध्यानाः वृषायन्ते महे अत्याहाय पूर्वेर्विष्णे चित्राय रश्मय सुयामाः देवहो देवान् रोदसी एहवक्षि वृक्षप्रयजो द्रविणः सुवाचः सुकेतव उशसो रेवदूषुः मुतोचिदग्ने महिना पृथिव्याः कृतञ्चिदेनः सम् महेदशस्य इडामग्ने पुरुदम् संसलिङ्गो शश्वत्तमम् हवमानाय साध स्यान्नः सूनुस्तनयो बिजावाग्ने सा ते अञ्जन्तित्वा मद्धरे देपजन्तो वनस्पते मधुना दैव्ये येन यदूर्ध्वश्रेष्ठाद्रविणेह दत्ताद्यद्वाक्षयो मातुरस्यापस्थे समिथस्य श्रयमाणः पुरस्ताद्ब्रह्म अजरं सुवीरं आरे अस्मदमतिम् बाधमानमुच्छ्रयस्व महते सौभगाय उच्छ्रयस्व वनस्पते वर्ष्मन् पृथिव्या सुमिलीमीयमानो वर्चोधा यज्ञवाहसे युवासुवासाः परिवीत आगात्स पु श्रेयान् भवति जायमानः जा जा तन्दिरासः कवचमुन्नयन्ति स्वाध्यो ओ, ओ, ओ, ओ, ओ मनसादे वयन्ताः जातो जायते सुधिरत्वे अह्नांसमर्यः विदथे वर्धमानः पुरन्दिधीरा अपसोमनीषादे भजाविप्र उदियर्ति वाचम् यान् बोधरो देवयन्तो निमिं्यर्वनस्पते स्वधितिर्वाचतक्षा ते देवासस्वरवस्तस्थिवांसः प्रजापदस्मेधिशन्तु रत्नम् ये वृक्नासो अधिक्षमिनिमितासो यतसृतः तेनो यन्तु वार्यन् दे वत्राक्षेऽत्र साधसः आदित्या रुद्रावसवसुनीधाद्या वा क्षामा सजोषसो यज्ञमवन्तु देवा ऊर्ध्वम् गृह्ण्वन्तद्धरस्य हेतुम् हंसा इव श्रेणिशोयतानाः शुक्रावसानास्वरवो नागुः उन्नीयमानाः कविभिः पुरस्ताः शृङ्गा आणीवेच्छृङ्गिणाम् सन्तदृश्रे चषालवन्तः स्वरवः पृथिव्या वागद्भर्वाभि हवे श्रोषमाणा अस्मावन्तु कृतनाद्ये वनस्पते शतवल्शो विरोहसहस्रवल्षाभिमयम् रुहेम यन्तामयम् श्रुतिस्तेजमानः प्रणिनाय महते सौभगाय सखा आयस्वा वृमहे देवम् अपान्नपाः तम् सुभगम् सुदेदितिम् सुप्रतोहूर्तिमनेऽहसम् कायमानो भनात्मयन्मातृरजगन्नपः न तत्तेः अग्ने प्रवृषेः निवर्तनयद्दूरे सन्निहाभवः अपरिदृष्टम् ववक्षिथाथैव सुमनाः असि प्रप्राण्येयन्ति पर्यन्य अन्वे एममिन्दन्निचिरासोः अद्रुप्सुसिंहमिव श्रितम् सस्रुमांसमिवत्मनाग्निमिथ्यातिरोहितम् वैनम् नयन्मातरिश्वापरापतो देवेभ्यो मथितम् वरे तन्त्वामर्ताः अगृभ्रत देवेभ्यो हव्यवाहन विश्वान्यद्यज्ञाम् अभिपासिमानुषतवकृत्ता आयविष्ठ्या तद्भद्रम् तव त्वायदग्ने पशवः समासते समिद्धमपि शर्वरे आजुहोता स्वध्वरम् क्षीरम् पाहावकशोचिषम् आशुन्दोतमजिलम् रत्नमेड्यम् सृष्टिदेवम् सपर्यत त्रीणि शता त्रिसहस्राण्यग्निम् त्रिंशच्च देवानवचासपर्यन् देवं अर्ताः स इन्धते समद्धरे त्वा यज्ञेष्वत्विजमग्ने होता रमीडते गोपालतस्य दीदिः स्वेदमे सखायस्ते तदा सति समिधातवेदसे सो अग्ने धत्ते सुवीर्यम् सपुष्यति स केतुरद्धराणामग्निर्देवेऽभिरागमत् अन्दानः सप्तहोत्रभिरहविष्मते प्रहोत्रे पूर्वम् भरतां ज्योतिंशिबिभ्रतेन वेधसे अग्निम् वर्धन्तु नोगिरोयतो जायत यतो जायतमुख्याः महेवाजा आयत्र विनायदर्शतः अग्ने यो अध्वरे देवान्दे वयते जज होता आमन्द्रोभिरा आचस्य सनः पापकदीरिः इत्युमदस्मे सुवीर्यम् भवा स्तोत्रभ्यो अन्तमस्वस्तये तन्ताभिप्रापि पन्द्यपो ओजाग्रवांसः समिन्धते हव्यवाहमवर्त्यम् सहो वृथम् अग्निरुहोता पुरोहितो विचर्षणिः सवेदयज्ञमा आलक सहौयवाणमर्त्य उषिभूतश्च नो हितः अग्निर्धिया समृण्वे अग्निर्धिया स चेतदिकेतुर्यज्ञस्य पूर्व्यः अर्थम् तरणे अग्निम् सूनुम् स न श्रुतम् सहसो जातवे एतसम् वह्निन् देवा अकृण्वता एता विशामग्निर्मानुषीणाम् तोर्णेरथः स दानवाः साह्वान्विश्वा अभिलह्क्रतुर्देवा नाम वृत्तः अग्निस्तु अभिप्रयाम् शिवाः सादाश्वामष्टोतिमर्त्याः क्षयम् पापकशोऽतिषः परिविश्वानि सुधिताग्ने रश्याममन्मभिः विप्राः सो जातवे एदसः अग्ने विश्वानिवार्या विश्वा वाजेशु सनिशामहे ते देवास एरिरे इन्द्राग्नि आगतम् सुतम् गीर्भिर्न भोपरेण्यम् अस्य पातम् इन्द्राग्नेज ऋतुः सचा आ यज्ञोऽगाति चेतनः अजापातमिमम् सुतम् इन्द्रमग्निम् कविच्छदा यज्ञस्य ज्योत्यावृणे ता सोम सेहतृम् पता तोषावृत्रहणा हुवे प्रवाहामर्त्यम् चुक्थिनो नीथाभिधो चरिताराः इन्द्राग्ने इष आवृणे इन्द्राग्नेन पतिम् पुरो दासपत्नीरधोनुतम् साकमेके न कर्मणा इन्द्राग्ने अपसस्पर्युपप्रयन्ति भीतयाः वृतस्य पथ्या अनु इन्द्राग्नेतविषाणिमाम् सतस्थाः निप्रयांसि च युवो रप्तोर्यम् हितम् इन्द्राग्नेरोचनादिवः परिवाजेषु भूषथः तद्वाञ्जेति प्रवीर्यम् प्रवो ओदेवाजाग्नजे बर्हिष्ठमर्चास्मै नवद्देवेभिरासनो जिष्ठो बर्हिरासदत् कृतापायस्य रोदसीदक्षम् स चन्त ऊतजाः हविष्मन्तस्तमेलतेतम् स निष्यन्तोऽपसे स जन्ता विप्र एषाम् अग्निम् तम् वो ओदुवस्य ददाता यो वनितामघम् स नः शर्माणि वीतयेग्निर्यच्छतु सन्तमा स्यतो ओ नः प्रश्नपद्मसु दिविक्षितिभ्यो अप्स्वा दीतिमाम् समपोर्यम्बस्वेभिरस्य दीतिभिः कृक्वा आणो अग्निमिन्धते होतारम् विष्पतिम् विशा उतरो ब्रह्मन्नविष उक्थेषु देवहूतमः शर्णः शोचामरुद्वृतोऽग्ने सहस्रसतमः मोनोरास्वसहस्रवत्तो कवत्पुष्टिमद्वसो युमलग्ने सुीर्यम् वरिषिष्ठमनुपक्षितम् आहूताः मन्द्रो वितथान्यस्थात् सत्यो यज्ञाः कवितरः सेधाः विद्युद्रथः सह सस्पुत्रो अग्निः अया आमिते नव मुक्तिञ्जुषस्वरुताः वस्तुभ्यम् चेतते सहस्वः विद्वाङ्गावक्षिविदुषोरिषत्सिवध्या बर्हि रूदये ये यजत्रा द्रवतान्त उषसाः वाजयन्ति अग्ने वा तस्य पथ्याः अभिरच्छा यत्से ए मञ्जन्ति पूर्व्यम् हविर्भिरा बन्धुरे एव मित्रश्च तुभ्यम् वरुणः सहस्वोऽज्ञे विश्वे मरुतः सुन्नमर्चन् यच्छोतिषाः आसहसस्तुप्रतिष्ठा आभिक्षिदेः प्रथयन्सोर्योदृन् वयन्ते अद्य रमाहि काममुत्तानहस्ता नमसोपसद्यष्ठे न मनसा यक्षिदेवानश्रेधतामन्मना विप्रो अग्ने त्वद्धिपुत्रसहसोऽभि पूर्वैर्देवस्य यन्त्योतयो त्वम् देह सहस्रिणम् रजिन्नो द्रोगेण वजसा सत्यमग्ने तुभ्यम् दक्षतविक्रतो यानीमादेवमर्ता आसो अध्वरे अकर्म त्वं विश्वस्य सुरथस्य बोधि सर्वम् तदग्ने अमृतस्वदेहा विपाजसा पृथुनाशोऽशुचानो बाधस्वद्विषो रक्षसो अमी सुशर्मणो रहतः शर्मणि स्यामग्नेरहम् सुहवस्य अस्या अस्याविषसोऽव्युष्टौत्तम् सूर उदिते बोधि गोपाः जन्मे परित्यन्तनयञ्जुषस्व स्तोमम् मे अग्ने तन्बाः सुजाता त्वन्द्रचक्षा वृषभानुपूर्वेः कृष्णा स्वग्ने अरुषो विभाहि वसो नेषि च पर्षि चात्यम्हकृधीनो राज उषिजो यषा अग्ने वृषभोदिदेहि पुरो यज्ञस्य नेता प्रथमस्य पाजोर्जातवेदो बृहतः सुप्रणीते अच्छिद्राशर्मचरितः पुरोणि देवाङ्च्छादीद्या आनः सुमेधाः रथो नषस्तिरभिभक्षिवाजमग्नेत्तम् इळामग्ने पुरुदम् संसनिङ्गोऽ शश्वत्तमम् हवमानाय साध स्यान्नः सोऽनुस्तनयो विजावाग्ने साते सुमतिर्भूत् तस्मे अयमग्निः सुवीर्यस्येषे महसौभगस्य राज ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् इमन्नरो मरुतः सश्च तावृथ यस्मिन् राजश्येव सः अभिये सन्ति कृतनासु दूढ्यो विश्वाः शत्रुमातभुः सत्त्वन्नो राजशिशेहि मेढ्यो अग्ने सुवीर्यस्य तु विद्युम् न वरिषिष्ठस्य प्रजापतो न बीवस्य सुष्मिणाः चक्रिर्यो विश्वा भुवनाभिसाः सहिश्चक्रिर्देवेश्वादुपाः आसुवीर्य आशंस उत मानोः अग्ने मतये मा वीरतायैरीरथः मा गोदाहै सहसः पुत्रमानिदे पद्वेषाम् स्याकृति षड्दिवादस्य सुभगः अध्वरे संराजा भूयसा सृजमयो भुनातु विद्युम् न यशस्वता समिध्यमानः प्रथमानुधर्मासमक्तुभिरज्यते यथा यजो होत्रमग्ने पृथिव्या यथा जा आदिवो जातवेदश्चिचित्तान् एवानेन हविषा आ यक्षि देवान्मनुष्मद्यज्ञम् प्रतिरेमद्या त्रीण्यायोंशितवजातवेदस्तिस्र आजानीरुषसस्ते अग्ने ताभिर्देवानामभो अग्ने विद्वानथा आपमाना यसंयोः अग्निम् स्वधीतिम् सुदृशम् गृणन्तो नमस्या वस्त्रेड्यम् जातवेदः त्वाम् गोतमलति देवा अकृतस्य नाभिम् यतस्तद्धोता पूर्वो अग्नेयदीयाम् च सत्ता स्वथया च शम्भुः तस्या तु धर्मप्रयजाति अध्वरम् देववीतौ भवा नो अग्ने सुमना उपे एतौ सखे एव सख्ये ए पितरे एव साधुः पुरुद्रुहो भीक्षितयोजनाम् प्रति प्रतीचीर्दहतादरा आदेः तपोष्वग्ने अन्तरान् अमित्रान्तपाशम् समररुषः अमित्रां तपाशं वसो चिकिता नो अचित्तान्विते ए तिष्ठन्तामदराः अजासाः विद्वे आग्न इच्छमानो कृतेन जुहोमि हव्यन्तरसेवलाः आया यापदीशे ब्रह्मणा वन्दमान इमां धियं शतसे याय देवी उच्छोचिषाः सहसस्पुत्रस्तुतो बृहद्वयः शमानेषु धेहि हेमलग्ने विश्वामित्रेषु संयोर्मे तम्वा अम्भोनिकृत्वाः कृतिरत्नम् सुसनितर्धनाः नाम् सखे दग्ने भवसि यत्समिद्धः स्तोतुर्दुरोणे सुभगस्य रेवकरस्नादधिशेवपुंषे अग्निम् आरं प्रवर्णे होताहारम् प्रवृणे विजेधे कृत्सङ्गविम् विश्वपितमूरम् सोयक्षायीयान् राजे माजायवनते मघाने अग्ने हविष्मते यन्यच्छाः सुद्युम्नाम् रातिनीम् कृताचीम् प्रदक्षिणिदेवता आदिपुराणः सं्रातिभिर्वसुखर्यज्ञमश्रेत् स तेजीयसा मनसा पोत उत शिक्षस्व प्रत्यस्य शिक्षोः अग्नेः राजो नृतमस्य प्रभूतौ भूयामते सुष्ठुतयश्च वस्वाः भूरिः डिहित्वे दधिरे अलीकाग्नेः देवस्य यज्ज भोजनासः स आवह देवता आदीयमिष्ठशब्दो यज्जदिव्यञ्ज आसे यत्पाहोदारमनयन् विजेधे निषादयन्तो यथायदेवाः सत्पन्नो अग्ने वितेह बोध्यधिश्रवांसिधेहि नस्तनूषो अग्निमुषसदश्विनाष्टिषु हव ते बह्निरुक्थैः सुज्योतिषो न शृण्वन्तु देवाः सजोषसो अध्वरम् वानाः अग्नेत्रे ते वाजिनात्रेधस्थाः तिस्रस्ते ये जिह्वाहृतजातपूर्वैः तिस्रहुते तन्वो देववातास्ताभिर्नाह्वाहि गिरो अप्रयुच्छन् अग्ने भूरेणितवजातवेदो देवस्वधा भो मृतस्य नाम याश्च मायामायिनाम् विश्वमिन् भद्रे पूर्वे सन् लघुः पृष्टबन्धो अग्निर्नेताभग इव क्षितीनाम् दैवीनाम् देवहृदुपा हृता वा सवृत्रासनयोः विश्वमेताः परिषद्विश्वादिदुरिता कृणन्तम् अधिक्रामग्निमुषसम् च देवीम् बृहस्पतिम् देवम् अश्विना आमित्रावरुणा भगम् च वसोन् रुद्राम् आदित्याम् इह हुवे इमन्नो यज्ञमृतेषु धे हिमाहव्याजा आतवेदो जुषस्व स्तोकाना आमग्ने मेदसो घृतस्य होतः आनप्रथमो निषद्य घृतवन्तः पावकते स्तोकाश्चो अतन्ति मेदसः स्वधर्मम् देववीतये नो देहि वार्यम् तुर्भ्यम् स्तोकाघतश्चुतोऽग्ने प्राहायसन्त्यश्रेष्ठः समेध्यसे यज्ञस्य प्रापिता भव तुभ्यंश्चोतन्त्यध्रियोशजीवस्तोकासो अग्नेमेतसो घृतस्य कविशस्तो बृहता भानुनागाः हव्याजुषः समेधिर ओतिष्ठन्ते मध्यतो मेद उद्धृतम् प्रते एवयं ददामहे शोतन्ति ते अयम् सो अग्निर्यस्मिन् सोममिन्द्रः स्वतन्त्रे जठरे एवापशानः सहस्रिणम् वाजमत्यन्नसप्तिं समान्संस्तूयसे जातवेदः अग्नेयत्ते एविमर्चः पृथिव्यान्यदोषधेष्वप् स्वायजत्र येनान्तरिक्षमुपादतन्थत्वेधः स भानुरर्णमो धृतक्षाः अग्ने एवो अर्णमच्छा आदिगास्यच्छा आदेवाम् ओजिषेधि्याये ो चले परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपाः पुरीष्याः सो अग्नयः प्रावणेभिः सजोषसः दुषन्तान यज्ञपद्रुहो न, न भीवाहिशोः महीः पिडा आमग्ने पुरुदम् संलिङ्गो शश्वत्तमम् हवमानाय साध सुधिता सुवादस्य युवा अमृतम् जातवेदा अमन्थिष्टाम् भारता रेवदग्निम् देवश्रवा देववाहातः सुदक्षम् अग्रे विपश्य बृहताभिराजेषान्नो नेता भवता तनुद्यो न दशक्षिपः पूर्यम् से एव जीतनम् सुजाहातम् मातृशु अग्निम् स्तु हि दैव पातन् दे एव श्रो योजना आनाम सद्वशी नित्वा आदधे पर आपृथिव्या इळ आयास्पदे सुदिनत्रे अह्नाम् दृषद्वत्याम् मानुष आपयायाम् सरस्वत्याम् रेपदग्ने दिदिः इळा आपग्ने हवमानाय साध ्यान्नः सोनस्तनयोनेसाते सुमतिर्भूत्तस्मे अग्ने सहस्तवर्णना तेरपाः स्याष्टरस्तरन्नरा यज्ञवाहासे अग्न इडासविध्यसे वीतिहोत्रो अमर्त्यः युषस्वसूनो अध्वरम् अग्ने न जागृवे सहस सून बाहुता एदम् बर्हिः स दोमवा अग्ने विश्वेभिरग्निभिर्देवेभिर्महजागिराः यज्ञेषु य उ चायवाः अग्नेदादाशुषे एदयम् वीरवन्तम्परेणसम्सो नुमताः अग्ने एवस्सो तुलसि प्रचे एतास्तनाः पृथिव्या उत विश्ववे एदाः पृथग्देवाङ्गिहजादि अग्निः सनोति वीर्याणि विद्वान् सनोति वाचमृता यभूषन् स नोः देवाङ्गे हवरुक्षो अग्निर्द्यावाहा पृथिवे विश्वजन्ये आभा आदिदेवे अमृते अमोरः शजन्वादैः पुरश्चन्द्रो नमोभिः अग्न इन्द्रश्च दाशुषो तु रोडे सुतापतो यज्ञमिहोपजातम् अमर्थम् तासो मपेयायते वा अग्नेः अपां समिध्यसे तु रोडे नो साहसो जातवेदः आनि सधस्थानिमहयमानमूते वैश्वानरम् मनसाग्निम् निचाय्याहविष्मन्तो अनुसत्यम् स्वर्विदम् सुदानम् देवम् रचिदम्बसूयवो गीर्भेरण्मङ्कुशिकासो हवामहे तम् शुभ्रमग्निमभसे हवामहे वैश्वानरम् मातरिश्वानमुख्यम् बृहस्पतिम् मनुषो देवतातरे विप्रम् श्रोतारमतिथिम् रघुश्यलम् अश्वो न क्रन्दञ्जलिभिः समिध्यते वैश्वानरः कुशिकेगे युगे स नो अग्निः सुवीर्यम् स्वस्य दधाः तु रत्नमृतेः शुजागृभिः प्रयन्तु वाजास्तविषेभिरग्रजः शुभे संविश्राः पृषतीरयुक्षदाहरुषो अमरुतोऽविश्ववेदसः प्रवेपयन्ति पर्वताम् अदाहाभ्याः अग्निश्रियो अमरुतो ते स्वानिरो रुद्र्याः परुषनिर्णयः सिंहानहे शक्रतवः सुदानवः प्रातम् रातम् गणम् गणम् सुषस्तिभिरग्नेर्भामम् मरुतामोज इमहे कृषदश्वासो अनपभ्राकन्ता आरो यज्ञम् विदधे सुधीरा आह अग्निरस्मि जन्मना जातवेदाकृतम् एचक्षुरतम् आसन्त्रिधातो रजसो विमानोऽजस्रो घर्मो त्रिभिः पवित्रैरपुपोध्या अर्कम् हृदा मतिञ्ज्योतिरनुप्रजानन् वरिषिष्ठम् रत्नमकृतस्वधाभिरादिद्यावा पृथिवे पर्यपश्यत् शरथा आरमुत्समक्षे एयमाणम् विपश्चितम् वितरम् मत्वा आनाम् वेडिम् वदन्तम् पित्रोरुपस्थेतम् रोदसेऽपिवृतम् सत्यवाचम् प्रभो वाजा अभिद्यवो हविष्मन्तो ईडेः अग्निम् विपश्चितम् गिरायज्ञस्य साधनम् सृष्टीवानम् धितावाहनम् अग्नेः शकेमते भजञ्जमम् देवस्य वाजिनाः हरिद्वेषा हंसितरेम समिध्यमानो अध्वरेग्निः पाः पक ईड्याः शोचिष्केशस्तमीमहे पृथुराजामर्त्यो घृतविर्णिक्स्वाहुतः अग्निर्यज्ञस्य हव्यवाड् तम् सपाधो यतसृ च इच्छाधिया यज्ञवन्तः आचक्रुरग्निमूदयेः होता देवो अमर्त्यः पुरस्ताः देतिमाजया विदधाः निप्रचोदयन् वाजीवाजेशुधीयते धरेषु प्रणीहीयते विप्रो यज्ञस्य साधनः त्रियाचक्रेवरेण्यो भूतानाम् दक्षस्य पितरन्तनाः नीत्वादधे वरेण्यम् दक्षस्येळासहस्रता अग्ने सुधीरिमुषिजम् अग्नियन्तुरमप्तुरमृतस्य योगे मनुषाः विप्रावाजैः समिन्धते ऊर्जोऽनपातमद्भरे देये दिवाम् समुपद्यपि अग्निमी ईळे कविक्रतुम् ईळेऽन्यो नमस्य स्थिरस्तमांसिदर्शनः समग्निरिध्यते वृषाः पृषो अग्निः समिध्यतेश्वो नरे बवाहनः तम् हविष्मन्त ईडते वृषणन्ता वयम् वृषन् वृषणः समि धीमहि अग्नेतीत्यम् बृहत् अग्नेः जुषस्वनो हविः पुरोळाशम् जातवेदः प्रातः सा वेधियावसो पुरोळा अग्नेपचतस्तुभ्यम् वा गापरिष्कृतः तम् जुषस्व यविष्ठ्या अग्नेः वीहि पुरोलाशमाहुतम् तिरोऽन्यम् सहसः सूदुरस्य ध्वरे हितः माध्यन्दिनेशमने जातवेदः पुरोळाशमिह कवेजुषस्व अग्नेः यश्वस्य तव भागधे यन्न प्रमिनन्ति विदथे एषु धीरा आह अग्नेः तृतीये समनेहिकालिषः पुरोळाशम् अग्ने वृधान आहुतिम् पुरोलासम् जातवेदः युशस्वतिरो अन्यम् अस्ते हस्तेदमधिमन्थनमस्ति प्रजननम् कृतम् एताम् विष्पत्न्यैमाभराग्निम् मन्थामपूर्वथा अरण्योर्निहितो जातवे एता गर्भ इव सुधितो गर्भिणीषु ईड्यो ओजागृवद्भिरहविष्णद्भिर्मनुष्ये एभिरग्निः उत्तानायामवरातिकीर्तान् सद्यः प्रवेता वृषणञ्जला अरुषसोपोरुषदस्य पाद इला आयास्पुत्रो वजुने एजनिष्ठा इळा आयास्त्वापदे भजन्नाभाः पृथिम्जा अधि जातवेदोलिधे ए मह्यग्ने मन्थतानरः कविमर्दयन्तम् प्रचेतसमृतम् सुप्रदेकम् यज्ञस्य केतुम् प्रथमम् पुरस्तादग्निम् नरोदनयता सुषेवम् यदी मन्थम्भिरोचतेष्वज्यलुशोमनेष्वा चित्रो न यामन्नश्विरोरनिवृतः परिवृणक्त्यश्मनस्रुनादहन् जातो अग्निरोचते चेकितानो वाजे विप्रः देवासरीड्यम् विश्वपितम् हव्यवाहमलधुरध्वरेषु सीत होतस्व उ लोके चिकित्त्वान् सादया आज्ज्ञम् सुकृतस्य यो नौ देवाविर्देवान्हमिषाजास्यग्ने बृहत्यजमानेव यो धाः कृणोतधोमम् मृषणम् सखायोश्रे सन्त इद नवाजमच्छ अयमग्निःप्रदनाशाटुवीरो देवासो असहन्तरस्योन् अयम् ते यो निरृत्युयोजतो ओजातो अरो ओजथाः तञ्जानन्नग्न आसीराथा नो वर्धयागिराः तनो न वाुच्यते गर्भ आसुरो नराशंसो अभवति यद्विजायते मातरिष्वायतमित मातरिवातस्य सर्गो अभवत्सरि एमणि निर्मथा निर्मथितः सुनिधा निहितः अग्ने एतद्धरा कृणुदेवान्दे अये जनन्नमृतम् मर्त्याम्भवन्वसाो अगुरुः समेचेः पुमानम् सञ्जातमभि संरभन्ते प्रसप्तो दासनकाररोचनमातुर श्रेयदशोजूधने न निमिषति सुरणो दिवे दिवेयत सुरस्य च राज आयत अमित्राजुधोः मरुतामिव प्रयाः पथमजा ब्रह्मणो विश्वविद्विदुः द्विम्नवद्ब्रह्मकुशिकास एरिल एक एकोदमेः अग्निम् समीधिरे यदद्यत्वा प्रयति यज्ञे अस्मिन् होतश्चिकित्वो वृणीमहीह